एकाग्निकाण्डं 2.1 पाय्ण्ट् वन् उष्णेन वायुदकेनेह्यदि केशान् वपतु आप उदन्धु जीवसे दीर्घायुत्वाय वर्चसे जोक् च सूर्यं दृश्ये येना वपत्स सविदाक्षुरेण सोमस्य ुण से न्रमणो वपतेुष्मा जरदष्टे सदयमसौ येन नूषा बृहस्पदेग्ने से चायुषे वद तेनास्यायुषे वप सौ श्लोक्याय स्वस्तये येन भूयश्चरात्ययं जोक् च पश्यादि सूर्यम् तेनास्यायुषे वपसौ श्लोक्याय स्वस्तये येन पूषा बृहस्पदेरग्नेरिन्द्रस्य चायुष्येवपत् तेन ते वपाम्यसा वायुषा यथा ज्योक्सुमना असाः यक्षुरेण मर्चयता सुपेशसा वक्त्रा शुन्धि शिरो मास्याह्युप्रमोषिः उक्ताय उक्तायकेशान वरुणस्य राज्ञो बृहस्पति सविदा सोमो अग्निः तेभ्यो निधानं बहुदान्व विन्दन्नन्तरा द्यावापृथिवी अपसुवः एकाग्निकाण्डं टु पायिण्ट् टु आयोर्दादेवजरसं घृणानो घृतप्रतीको घृतपृष्ठो अग्निर्घृतं पिबन्नं हृदं चारुगव्यं पिदेवपुत्रं जरसे नयेमं आदिष्टे मम मश्मेव त्वग्ुस्थिरो भव अभितिष्ठ पृतन्यदसहस्व पृतनायतः रवती स्वा वृक्षन् कृत्तिकाश्च कृघ्त्वा दियो वयन्नवग्ना अवृञ्जन् सहस्रमन्दागुम् अभिधो अयच्छन् देवीर्देवाय परिधी सवित्रे महत्तदसामभवन्महित्वनं या अकृन्दन्न वह्यन् या अदन्वदयाश्च देवीरन्दानभिदो ददन्द तास्त्वदेवीर्जरसे साव्ययन्त्वा युष्मानिदं परिधस्व वासः परिधत्तधत्त वासैनगुंसदायुषं कृणुद दीर्घमायुः बृहस्पति प्रायच्छद्वास ये दत्सोमाय राज्ञे परिधातवा ऊ जरां गच्छासि परिधत्स्व वासो भव पृष्ठीनामभिषस्ति पावा शतं जीव शरदसु वर्चा रायश्च पोषमुपसंव्ययस्व परिदं वासो अधिदा स्वस्तये भूरापीनामभिषस्तिपावा शतं च जीवशरद पुरुचेर्वसूनिचार्यो विभजासि जीवन् इयं दुरुक्तात् परिबाधमाना शर्मवरुधं पुनति न आदाद प्राणापानाभ्यां बलमाभरन्ती प्रिया देवानागुं सुभगा मेखलेयं ऋतस्य गोप्त्री तपस परस्पीघ्नदी रक्षः सहमाना अरातीः भर्तारस्ते मेखले मारिषाम मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वे स्तविरघुं समिद्धम् अनाहनस्यं वसनं जरिष्णु परीधं वाज्यजिन्नं दधेहम् एकाग्निकाण्डं 2.3 आ गन्द्रा सम गन्महि प्रसु मृत्यो यु यो योतना अरिष्टा सञ्चरे महि स्वस्ति चरदा दिहस्वस्त्या गृहेभ्यः समुद्रा दूर्मिर्मधुमागुम् उदारदुपागुं शुना सममृतत्वमस्याम् इमे नुदे रश्मय सूर्यस्य येभिः सपि त्वम् पितरो न हस्तम सोमस्ते हस्तमग्रभीद सविताते हस्तमग्रभेद सरस्वतीते हस्तमग्रभीद पूषादे हस्तमग्रभि दार्यमादे हस्तमग्रभि दगुंशुस्ते हस्तमग्रभिद् भगस्ते मित्रस्ते हस्तमग्रभिन्मित्रस्ते हस्तमग्रभिन्मित्रस्त्वमसि धर्मणाग्निराचार्यस्तव अग्नये स्वा परि ददाम्यसौ सोमायित्वा परिददाम्यसौ सवित्रयित्वा परिददाम्यसौ सरस्वत्ययित्वा परिददाम्यसौ मृत्यवेत्त्वा परिददाम्यसौ यमायित्वा परिददाम्यसौ ददायत्वा परि ददाम्यस्सौ वन्दकायित्वा परि ददाम्यसा वद्भ्यस्त्वा परिददाम्यसा वोषधिभ्यस्त्वा परि ददाम्यसौ पृथिवी त्वा स वैश्वा नरायै परि ददाम्यसौ देवस्य त्वा प्रसवे उपनये सुप्रजा प्रजया भूयासु वीरो वीरै सुवर्च वर्चसा सु ब्रह्मचर्य मागामुपमानयस्व देवेन सवित्रा प्रसूतः को नामास्मिकस्य नामा ब्रह्मचार्यस्य प्राणस्य ब्रह्मचार्यस्म्यसा व्यषते देवसूर्यब्रह्मचारी तं गोपाय समा मृतयिषते सूर्यपुत्रसुदीर्घायुसमा मृता, मृता यागस्वस्तिमग्नेर्वायुसूर्यश्चन्द्रमा आपोनु सञ्चरन्ति स्वस्तिमनुसञ्चरासौ अवध्वना मध्वपदे श्रेष्ठस्याध्वन्नः पारमशीय यकाग्निकाण्डं टु पायिण्ट् 2.4 मिममग्न आयुषे वर्चस्य कृते द्वे योगे योगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमोदये इममग्न आयुषे वर्चस्ये कृधि प्रियगुमृदो वरुणसोमराजन् मा ते वा अस्मा अदिदेशर्म यच्च विश्वे देव जरदष्टिर्यथा सद शतमिन्नु शरदो अन्दिदेवा यत्र नश्चक्रा जरसं तनूनां पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायोर्गन्तोः अग्निष्ट आह्य प्रदराम ददा त्वग्निष्टे पुष्टिं प्रदरां, प्रदरां कृणोतु इन्द्रो मरुद्भिरुदुधा कृणोत्वादित्याैस्ते वसुभिरा दधातु मेधां मह्यमङ्गिरसो मेधागं सप्तर्षयो दधुः मेधां मह्यं प्रजापतिर्मेधामग्निर्दधातु मे अप्सरासु चयधा गंधर्वेशु ची याषी मेधा साशता दिह इमे व्रुधि हवमद्या च मृदय म व्युरा चे तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानोहविर्भिः अफेडमानो वरुणे कपो ग्युरुशपुंस मान आयुः प्रमोषीः त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोव यासिष्ठाः यजिष्टो या वक्नि तमशोशुचानो विश्वा द्वेषागुंसि प्रमो मुग्ध्यस्मद सत्वन्नो अग्नेवमो वमो दिष्टो अस्या उषसो व्युष्टौ अव यक्ष्वनो वरुणगुम्ररणो वीहि मृडितगुं सुहवो नयेधि त्वमग्ने अयासि अयाः सन् मनः साहिदः अयाः सन् हव्यमोहिषे अयानो अग्निराहुदः स्वाहा कृधपिपर्तुनः स्ववा देवेभ्य इदं नमः राष्ट्र भृतस्याचार्या सन्धीमा त्वद्योषम् तत्स विदुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो न प्रचोदयाद अवृधमसौ सौम्य प्राणस्व मे ब्रह्मण आनी स्तः यकाग्निकाण्डम् 2.5 पायिण्ट् फैव् शुश्रव सुश्रव सं कुरु यधा त्वगुं शुश्रव शुश्रव अस्येव महगुं सुश्रव शुश्रव भूयासं यधात्वगुं सुश्रव शुश्रवो देवानां निधि गोपोऽस्येव ्राह्मणानां ब्रह्मणो निधिगोपो भूयासं स्मृतं च मे स्मृतं च मे तन्म उभयम् व्रतं निन्दा ज मे निन्ता च मे तन्म उभयं व्रदग् श्रद्धा तन्म उभयं व्रतं च मे तन्म तन्म उभयम् व्रतगुं सत्यं च मे नृतं च मे तन्म उभयं व्रतं तपश्च मे तपश्च मे तन्म उभयं व्रतं व्रतं च मे व्रतं च मे तन्म उभयं व्रतं यद्ब्राह्मणानां ब्रह्मणि व्रतं यदग्नेसेन्द्रस्य स प्रजापदिकस्य स देवस्य स देवराजस्य स मनुष्यस्य स मनुष्यराजस्य सपितृकस्य स पितृराजस्य स गन्धर्वाप्करस्कस्य यन्म आत्मन आत्मनि व्रतं तेनाहगं सर्वव्रतो भूयासम् उदायुष् स्वायुषोदोषधीनागुम् रसेनोत्पर्जन्यस्य चुष्मेणोदस्ता ममृतागुम् अनु तत् चक्षुर्देवहिदं पुरस्ता चुक्रमुच्चरद पश्येम शरदशदं जीवेम शरदशदं नन्दामशरदशम् मोदाम शरदशदं भवाम शरदशदुं शृणवाम शरदशदं प्रब्रवाम शरदशदं मजीदास्याम शरदशदं ज्योक् च सूर्यं दृशे यस्मिन्भूतं च भव्यं च सर्वे लोकाः समाहिताः तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं प्रजापदि न त्वा मह्यं च धनेन च सुप्रजाजयाूया सगुम सुवीरो वीर सुवर्चा वर्चस सुपोष पोष्य सुगृहो गृह्यु दिपत सुधा सु मेधा, मेधया सुब्रह्म ब्रह्मचारिभ अग्नये समिध माहारषं बृहदे जादवेदसे यथा त्वमग्ने समेधा समिध्य स सा मामायुषा वर्चसा संज्ञा मेधया प्रजया ब्रह्म वर्चसेनाद्येन समेधय स्वाहा येदोस्येधिषि महि स्वाहा समिदसि समेधिषि महि स्वाहा तेजोसि तेजो महि धेहि स्वाहा अपो अद्यान्व चारिषगुमृसेन समसृक्ष्महि पयस्वागुम् अग्न आगमन्दं मा सगं सृज वर्चसा स्वाहा समाग्ने वर्चसा सृज प्रजया जधने न विद्युन्मे अस्य देवा इन्द्रो विद्यात् स्वाहा अग्नये बृहदे नागाय स्वाहा द्यावा पृथिवीभ्याहुं स्वाहा यशा ते अग्ने समितया वर्धस्व चाप्यायस्व च तया संवर्धमानो भूयास मप्याय मा मानश्च स्वाहा योमाग्ने अग्ने भागिनगं सन्तमधा भागं चिकीर्षत्यभागमग्ने तम् कुरु मामग्ने भागिनं कुरु स्वाहा समिधमाधायाग्ने सर्वव्रदो भूय सग्स्वाहा ब्रह्मचार्यस्य पोषणकर्म कुरु मा सुषुप्ताः भिक्षाचर्यं चराचार्याधीनो भव यस्य ते प्रथमवास्य गुं हरामस्त्वं त्वा विश्वे अवन्तु देवाः तन्त्वा भ्रादरसुवृधो वर्धमानमनुजायन्तां बहव सुजातम् इमग्रिस्तो ममर्हदे जादवेदसे रथमिव सं महे मा मनीषया भद्राहिनः प्रमितिरस्य सगं सद्यग्ने सद्ये मारिषमा वयं तव त्र्यायुषं जमदग्ने कश्यपश्य त्र्यायुष्यं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् शिव नासीतिस्ते पिदा नमस्ते अस्तु मामा अस्त मिगुंसी उष्ण वावुदक्य शपद आप उम दु जीवस दीर्घाुवाय वर्चस जोक्षसूर्य दृश्य येन वपत् सविदाक्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् तेन ब्रह्मणो वपदे दमस्यायुष्मान् जरदृष्टिर्यथा ये सदयमसौ येन पूषा बृहस्पदेन्द्रस्य चायुषेवपद तेनास् स्यायुषेवप सौ श्लोक्यायस्वस्तये येन भूयश्चरात्ययं जोक् च पश्यादि सूर्यं येन पूषा बृहस्पदे रत्नेरिन्द्रस्य ते म्य वायुष वर्चसा असाह यक्षुरेण अस युण मर्चयदुपेश वक् वी केशन शुन्धिशिरो मैयु प्रमोषी उशान वरुणस्य राज्ञो बृहस्पतिः सविधा सोमो अग्निः तेभ्यो निधानं बहुधान्व विन्दन्नन्तराद्या वा पृथिवी अपः सुवः इदमहममुष्यामुष्यायणस्य पाप्मानमुप गोहाम्युत्तरोऽसौ द्विषद्भ्यः आपोष्ठामयो भुवस्तानवूर्जे दधातन महेरणाय चक्षसे यो वशिव तमो रसस्तस्य भाजयते हनः उशतीवमातरः तस्मा अरङ्ग मामवो यस्य क्षया यजिन्वध आपो जनयथा च नः हिरण्यवर्णाशुचयपावता या सुजाधक् कश्यपो या स्विन्द्रः गर्भं दधिरे विरूपास्थान आपश्यगुस्योना भवन्तु या सा गुं राजा वरुणो यादिमध्ये सत्यानृते अवपश्यन् जनानां मधुश्चुतशुचयो याः पावकास्तान आपश्यग्स्यो न भवन्तु या सा आं देवादिविकृन्ति भक्षं या बहुधा भवन्ति या पृथिवीम् पय सोन्दन्ति शुक्रास्ता न आपश्यग्स्यो ना, आप ना भवन्तु अनाद्याय व्यूहध्वं दीर्घायुरहमन्नादो भूयासं सोमो राजाय मागमत्स मुखं प्रवेक्ष्यति भगेन सह वर्चसा सोमस्य तनुरसि तनुव मे स्वामा तनोराविश नमो ओ चा ग्रहाय चाभि जा ग्रहाय च नमस्ताभ्यो देवताभ्यो य अभिग्राहिणीः अप्सरसु यो गंधो गंधर्वेशुश दुषो गंधस्धसुरभुषा इयमो शेत्र सहम सहस्वी स मिरण्यवर्च संब्रह्मवर्च सिम कौ अपाशोऽस्युरो मे मासगुं शारी शिवो मोपतिष्ठस्व दीर्घायुत्वाय शद शारदाय शदगुं शरद्भ्य आयुषे वर्चसे जीवात्वै पुन्याया रेवती स्वा व्यक्ष्मन् कृत्तिकाश्च धियो वयन्नवग्ना अवृञ्जन् सहस्रमन्दाघुम् अभिदो अयच्छन् न देवीर्देवाय परिधि सवित्रे महत्तर्दासामभवन्महित्वनम् या आकृ न या अतन्वद याश्च देवीरन्दानभिदो ददन्द तास्त्वा देवीर्जरसे सं व्ययन्त्वा युष्मानिदं परिधत्स्व वासः परिधत्तधत्त वासैनगुं सदायुषं कृणोदीर्घमायुः बृहस्पतिपायच्छद्वास ये सोमायराज्ञे परिधातवा उ जरां गच्छासि परिधत्स्व वासो भववा कृष्टीणामभिषस्ति पावा शतं च जीवशरदसुवर्चा रायश्च पोषमुपसंव्ययस्व परिदं वासो अधि दास्वस्तये भूरापिना मभिषस्तिपा शतं च जीवशरद चार्यो विभजासि जीवन् एकाग्निकाण्ठं टु पायिण्ट् आयुष्यं वर्चस्य गुं सुवीर्यगुं रायस्पोश्रं म उद्भिद्यं यदगुं हिरण्यं जयित्र्याय विशदा माम् उच्चैर्वादिपृतनाजि सत्रा साहं धनञ्जयं सर्वा समृद्धिर् रुद्धयो हिरण्येस्मिन् समाहिताः श्युनमह गुं हिरण्यस्य पिदुरिव नामाग्रभैष्यं तम्मा हिरण्यवरुचः सं पूरुषु प्रियं कुरु प्रियं मा देवेषु कुरु प्रियं मा ब्रह्मणे कुरु प्रियं विश्येषु शूद्रेषु प्रिय राजसुमा कुरु यातिरर्थी निपद्य शेषं विधरणि इति तान्त्वा कृतस्य धारया यजे सगुं प्राधनीमहं सगुं प्राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहा सम्राज्यं च विराजम् चापि श्रुर्यच नो गृहे लक्ष्मीराष्ट्रस्य यामुखेतया मा सृजामसि शुभिके शिर आरोहशोभयन्दिमुखं मम मुखगुं हि मम शोभय भूयागुंश भगं कुरु यमाहरजमदग्निश्रद्धायै कामायान्यै इमां तामपि न ह्येऽहं भगेन सह वर्चसा यदाञ्जनं त्रैककुदं जादगुं हिबवद उपरि तेन वामाञ्जे तेजसे वर्चस्ये भगाय एकाग्निकाण्डं टु पायिण्ट् नैन् मयि पर्वतपूरुषं मयि पर्वतवर्चसं मयि पर्वतभेषजं मयि पर्वतायुषम् यन्मे वर्च परागधमात्मानमुपतिष्ठति इदं तत् पुनराददेर्घायुत्वाय वर्चसे प्रतिष्ठे स्तो देवतानां मामासन्ताप्तम् प्रजापदेशरणमसि ब्रह्मणश्चिर्विश्वजनस्य छायासि सर्वतो मा पाहि सविदु त्वा प्रसवेश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्या मददे द्विषदो वधा येन्द्रस्य वज्रोऽसि वार्त्रघ्नशर्म मे भव यत्पापं तन्निवारय देवी ईषडुर्वीरुणकृणोदविश्वे देवास इह वीरयध्वम् महास्महि प्रजयामा तनूभिर्मा रधामद्विषदे सोमराजन् राष्ट्रभृदस्याचार्या सन्धि मा त्वद्योषघुं राष्ट्रभृदसि सम्रा सन्धि मा त्वद्योषघुम् राष्ट्रभृदस्यधिपत्न्या सन्दीमा त्वद्योषम् आपः पादवने जनेर्द्विषन्तं नाशयन्तु मे अस्मिन् कुले ब्रह्मवर्चस्य सनि मयि महोमय मै यशोमयेन्द्रियं वीर्यम् आ यशसा वर्चसा सगुं सृजपयसा त्यजसा च तमा प्रियं प्रजानां कुवधिपदिं पशुनां विराजो दोहोऽसि विराजो दोहमशीयमममपद्याय विराज समुद्रं वप्रशिणोमि स्वाम् योनिमपि गच्छद अच्छिद्रप्रजया भूयासमा परासेचि मत्पयः एकाग्निकाण्डं टु पायिण्ट् एक टेन् त्रैयैविद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि तम् मा प्रियम् प्रजानां कुर्वधिपदिं पशूनाम् आमागन यशसा गणयशसा वर्चसा सगुं सृजपयसा तेजसा च तमाप्रियं प्रजानां कुर्वधिपदिं पशूनाम् अमृतोपस्तरणमस्य मृतापि धानमसि यन्मधुनो मधव्यं परममन्नाद्यं वीर्यं तेनाहं मधुनो माधव्येन परमेणान्नाद्येन वीर्येण परमोन्नादो मधव्योऽसानि गौरस्यपहदपा पाप्न जहि मम च चा मुष्य चाश्नाथम सी वेद यहाववी अरिष्ठमस्कृवो ब्राह्मणे यो वर्धता युद्धिमु वर्धा पचितिरस्य पचिदं मा कुर्व पचितोऽहं मनुष्येषु भूयास्सं गौ धेनु भव्या मा दारुद्राणां दुहिता वसुनागुं स्वसादित्यानामृतस्य नाभिः प्रणुवोचं चिकितुषे जनाय मा गामनागाम दिदिंवधिष्ट पिबतु दं तृणान्यतु ओ मुत्सृजत भूदं सा विराड तन्माक्षायि तस्य तेशीय तन्म ऊर्जं धाः 2.11 पायिण्ट् इलेवन् दादा ददादु नो रयिमीशानो वा वनद दादा प्रजाया उदराय ईशे धादेदं विश्वं भुवनं जजान दादा पुत्रं यजमानाय दादा तस्मा उहव्यं कृतवद्विद्धेम दादा ददादु दा नो रयं प्राचीं जीवादुमक्षीदां वयं देवस्य धीमहि सुमधिगुं सत्यराधसाः दादा ददातु दाशुषे वसूनिप्रजाकमायमेषे दुरोणे तस्मै देवा अमृतासव्ययन्तां विश्वे देवासो अदिदिसजोषाः यस्त्वा हृदा किरिणा मन्यमानो मर्त्यं मर्त्यो जोहवीमि जादवेदो यस्यो अस्मासु देहि प्रजाभिरग्ने अमृतत्वमस्यां यस्मै त्वगं कृते जादवेद उ लोकमग्ने कृणवस्योनम् अश्विनगं सपुत्रेण विरबन्तं गोमन्दगुं रयिं नशदे स्वस्ति त्वे सुपुत्र शवसो भृत्रन् कामकादयः न त्वामिन्द्रादिरुच्यदे उग्ध उग्धे सोम इन्द्रं ममाद नीधे नीधे सुदासव सुदासः यदि गुं सबाधपिदरन्नपुत्रा समानदक्षा अवशेहवन्ते राकामखगुम् सुहवागुं सुष्ठु दिहुवे शृणोति न सुभगबोधदुत्मना सेव्य त्वपसूच्या चिद्यमानया ददादुविरगं शतदायमुद्यम् सुमदयसु पेषसो याभिर्दतासि दाशुषेवसूनि ताभिर्नो अद्य सुमना उपा सुभगे रराणा यौ गन्धरि वनो विवृतचक्रा आसीनास्तिरेण यमुने तव सोमये वनो राज्येत्याहुर्ब्राह्मणि प्रजाः विवृतचक्रा आसीनास्ति रेणासौ तव पुं सुवनमसि आभीष्ट्वाहम् दशभिरभिमृशामि दशमास्याय सूतवे यथैव सोमः पवदे यथा समुद्रये जदि एवं ते गर्भये जदु सखजरायुना निष्क्रम्यप्रदि तिष्ठत्वायुषि ब्रह्मवर्चसि यशसि वीर्येनाद्ये ए दशमासं च शयानो दात्रा हि तथा हृदम् ऐदु गर्भो अक्षितो जीवो जीवन्त्याः आयमनीर्यमयदगर्भमापो देवी सरस्वतीः ऐदु गर्भो अक्षिदो जीवो जीवन्त्याः तिलदेव पद्यस्वन मा गुं शमसि नोदलं स्थवित्र्यवपद्यस्वन मा गुं सेषुनस्नावसुन बद्धमसि मज्जसु निरैदु पृश्निशेवलगुं शुने जरायैव दिवस्परिप्रथमं जज्ञे अग्निरस्मद्वितीयं परिजादवेदाः तृतीयमप्सु नृमणा अजस्रमिन्धान येन जरदे स्वाधीः वित्मादे अग्ने त्रयधा त्रयाणि वित्मादे सत्मविभृदं पुरुत्रा वित्मादे नाम परमं गुहा यद्वित्मा तमुत्सं यद आ जगन्ध समुद्रे त्वा नृमणा अप्स्वन्दर्नृचक्षा दिवो अग्नवोधन् तृतीये त्वा रजसि तस्ति समृतस्य यो नौ मखिषा अहिन्वन् अक्रन्तदग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधसमञ्जन् सद्यो जज्ञानो वीहीमिद्धो अख्यधारोदसी भानुनाभात्यन्तः उशिपवो अर दि सुसुमेधा मर्तेराम इयर्ति धूममुषं भरी भ्रुचुक्रेण चो चिषाद्याम विश्वस्य के दुर्भुवनस्य गर्भ आरोदसि अपृणा जायमानः वेडुं चिद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च श्रीणामुदारोधरुणोरयेणां मनीषाणाम् प्रार्पणसो मोपः वसो सोनुसहसो अप्सुराजा विभात्याग्र उषसामिधानः यस्ते अद्य कृणवद्भद्रशोजे पूपं देव कृतवन्तमग्ने प्रदं नय प्रदरं वस्यो अच्छाभिद्युम्नं देवभक्तं यविष्ठा आदम्भज सौश्रवसेष्वग्न उग्ध उग्ध आम्भज शस्यमाने प्रियसूर्ये प्रियो अग्न भवार्त्युज्जादयेन भिन्नत्वौ hmm. आदम्भज सौस्रवसेष्वग्न उध उब्ध आ भज शस्यमाने प्रियसूर्ये प्रियो अग्ना भवात्युज्जादेन विन ददुज्जनित्वैः त्वामग्ने यजमानम् अनुद्योन्विश्व वसूनि दधिरे त्वया सह द्रविणमिच्छ माना व्रजं गोमन्दमुषिजो विवव्रुः कृशानो रुक्म उर्व्या व्यद्याौ दुर्मर्ष मायुश्रिये रुचानः अग्निरमृतो अभवद्वयो भीर्यदेनं द्यौ रजनयत् सुरेताः अस्मिन्नहद्वं सहस्रं पुष्याम्येध मानस्वे वशे अङ्गादङ्गात् सम्भवसि जायसे आत्मा पुत्र नामासि सजीव जीव शरदशदम् एकाग्निकाण्डम् 2.12. अश्मा ट्वेल् अस्मा भव परशुर्भव हिरण्यमसृदं भव पशूनां त्वा हिङ्गारेणाभिजिख्राम्यसौ मेधां ते देवः मेधां देवी सरस्वती मेधां ते अश्विनौ देवा वा धत्तां पुष्करस्रजा त्वय मेधां त्वय प्रजां त्वय्यग्निस्तेजो ददातु त्वयि मेधां त्वयि प्रजां त्वयिन्द्र इन्द्रियं दधातु त्वय मेधां त्वय प्रजां त्वय सूर्यो भ्राजो दधातु क्षेत्रीयित्वा निर्वृत्त्ययित्वा द्रुहो मुंजा अनागसं से पाशाद अनागसम ब्रह्मणे कौमी शिवे ते दृथिवी उंदे अग्निसहा श्या पृथिवी सहषधी शम्तरीक्षुम सहवादेना ते शं ते चतस्रप्रदिशो भवन्तु या दैवीश्चदस्रप्रदिशो वादपत्नीरभिसूर्यो विचष्टे तासां जरस आ दधामि प्रयक्ष्म यदुनृदिं पराचैः आमोची अमोचि यक्षुरीदर्त्युह पशा निवृत् चोदमोचि अह आवर्तिमत्म्य भूदभद्रे सुत लोके सूर्यमृदं तमसौ ग्राह्यायदेव अमुञ्चन् न सृजन् व्येन सः एवमहमि मं क्षेत्रिया जामि शगुं वरुणस्य पाशाद् भुस्वाहा भुवः स्वाहा स्वाहा एकाग्निकाण्डं टु पायिण्ट् तर्टीन् रक्षो वधिन्मा धेनुरत्या सारिणी प्रियाधनस्य भूयाये धमाना गृहे अयं कुमारो जरान्धय दीर्घमायुः यस्मै त्वग्स्तन प्राप्यायायुर्वर्चो यशो बलम् यद्भूमेर्हृदयं दिविचन्द्रमसि श्रृदं तद् विपश्यं माहं पौत्रमखगुं हृदं यत्ते सुसीमे हृदयं वेदाहं तत्प्रजापतौ वेदाम तस्य देवयम् माहं पौत्रमखगुं रुदम् नाम यदि न रुदधि यत्र वयं वदामसि यत्र चाभिमृशामसि आपसुप्तेषु जाग्रदरक्षागुंसि अयं कलिम् पदयन्तग्वानमिवोद्वृद्धम् अजां वाशितामिव वा मरुद पर्याध्वग् स्वाहा शण्डेरथ शण्डिकेर उलूखलः च्यवनो नश्यदाधित स्वाहा अय शण्डोमर्क उपवीर उलूखलः श्यवनो नश्यदादि स्वाहा केशिनीश्वलो मिनीखजापोजोपकाशिनीः अभेद नश्यदादिदस्वाहा मिश्र वास कौबेरका रक्षोराजेन प्रेषिताः ग्रामगुंसजानयो गच्छन्ति छन्दो परिधाकृतान् स्वाहा एतान् घ्नतैतान् गृह्णीतेत्ययम् ब्राह्मणः पुत्रः तान् अग्निपर्यसरतानिन्द्रस्तान् बृहस्पतिः तानहं वेदब्राह्मण प्रमृषद कूडदन्तान् विकेशान् लम्बनस्तनान् स्वाहा एकाग्निकाण्डं टु पायिण्ट् फोर्टीन् नक्तञ्चारिण पुरस्पेषान् चूलहस्तान् कपालपान् पूर्व येषां पितेत्युच्चै श्राव्यकर्मकः मादा जघन्या सर्पदिग्रामे विधुरमिच्छन्ती स्वाहा निश्चैथचारिणी स्वसा सन्धिना प्रेक्षदे कुलं यस्यै विजातायां मनः तासां त्वं प्रोमानगुं हृदयं यकृत अग्ने अक्षिणि निर्दह स्वाहा अङ्कादङ्कात् सम्भवसि हृदयादधिजायसे वेदो वै पुत्रनामासि सजीवशरदशदम् अस्मा भव परशुर्भव हिरण्यमस्तृदम् भव पशूनाम् त्वा हिङ्गारेणाभिजिक्राम्यसौ अग्निरायुष्मान् सवनस्पतिभिरायुष्मान् तेन त्वायुषायुष्मन्तम् करोमि सोम आयुष्मान् स ओषधीभिरायुष्मान्ते नत्वायुषायुष्मन्तं करोमि यज्ञ आयुष्मान् स दक्षिणाभिरायुष्मान्ते नत्वायुषायुष्मन्तं करोमि ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मते नत्वा युषायुष्मन्तं करोमि देव आयुष्मन्दस्ते मृते नत्वा नत्वायुषायुष्मन्दं करोमि सर्वस्मादात्मनः सम्भुदासि सा पौषधीनागुं रसम् शिवास्त आप ओषधयः आप ओषधयः उष्णेन वायवुदकेने ह्यदि कान् वपतु आप उदन्धु जीवसे दीर्घायुत्वाय वर्चसे योक्च्यसूयं दृश्ये येनावपत्सविदाक्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् तेन ब्रह्मणो वपते दमस्यायुष्माञ्जरदष्टिर् यथा सदयमसौ येन पूषा बृहस्पदेरग्नेरिन्द्रस्य चायुषेवपद तेनास्यायुषेवप सौ श्लोक्यायस्वस्तये येन भूयश्चरात्ययं जोक् च पश्यादि सूर्यम् तेनास्यायुषेवप सौश्लोक्यायस्वस्तये येन पूषा बृहस्पदेरग्नेरिन्द्रस्य चायुषेवपद तेन तेनते वपाम्यसा वायुष वर्चसा यथा ज्योक्सुमना असाः यत् सुरेण मचयद सुपेश वक् वपसि केशन शुंधि शिरो मै प्रमोषी उशा केशान से राज बृहस्पति सविदासो मो अग्निः तेभ्यो निधानं बहुधान्वविन्दराद्या वा पृथिवी अपसुवः एकाग्निकाण्डं टु यद्भूमे क्रूरं तदिदो हरामि पराजीं नृहृतिम् निर्वाहयामि इन्द्रगश्रेयो वसन मागन्मदेवा गन्म देव गोमदश्वा वदिदमस्तु प्रभूम स्यो नापृथिवी भवान्नृक्षरानिवेशनि यच्च नः इहैव तिष्ठनिमित्ता तिल्ल्वला स्यादिरावदी मध्ये ताल्पस्य तिष्ठान्मात्वा प्रापन्नकायवः आत्वा कुमारस्तरुण आवत्सो जगदासः आत्वा परिश्रोधकुम्भा आदध्नकलशीरयन् ऋतेन स्तूणा वधिरोः वगं शोग्रो विराजन्नपन्थे धशत्रून् ब्रह्मश्चदेक्षत्रं च पूर्वे स्तूणे अभिरक्षतु यज्ञश्च दक्षिणाश्च दक्षिणे युषश्चोर्जश्चापरे मित्रश्च वरुणश्चोत्तरे धर्मस्ते स्तूणा राजश्रीस्ते स्तूपः उद्ध्रीयमाण उद्धरवात्मनोमा यद् विद्वान् यच्च विद्वाग्कार अह्ना यदेन कृतमस्ति पापगं रात्र्या यदेन कृतमस्ति पापगुं सर्वस्मान् मो धृतो मुञ्च तस्माद इन्द्रस्य गृहवसुमन्तो वरू नस्तानः गुं सुमनसप्रपद्ये अमृताहृदिमृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यैतयानन्दम् काममहं जयानि प्रजा पदेर्यं प्रथमो चिगायाग्निमग्नौ स्वाहा अन्नपदेन्नस्य नो देह्य नमि वस्य सुष्मिणः प्रप्रदातरं तारिष ओर्जम्नो देहि द्विपदे चदुष्पते। अरिष्ठा अस्माकं वीरासन्धुमापरा सेजिमेधनम् भूमिर्भूमि मगान्मादा मादरमप्यवाद भूयास्मपुत्रै पुत्रै पशुभिर्यो नो द्वेष्टि स भिद्यताम् वास्तोष्पदे प्रतिजानी ह्यस्मान् वेश्यो अनमीवो भवानः यत्त्वे महे प्रति तन्नो जुषस्व शन्नये दिद्युपदे शञ्च वस्तोष्पदे शक्मया सगुं सदादे सक्षि महिरण्वया गादुमत्या म उत योगे वरन्नो यूयं यो पादस्वस्तिभिः सदा नः वस्तो उष्पदे प्रतरणो नयेऽधिगोभिरश्वेभिरिन्दो अजरासस्ते सख्ये स्यामपि देवपुत्रान् प्रदिनो अमीवः वस्तोष्पदे विश्वा रूपाण्या विशन् सकासुषेव येधिनः शिवगुं शिवम् एकाग्निकाण्डं टु पायिण्ट् कोर्कुरकोर्कुरो वालबन्धनः उपरिष्ठाद्यते जाय तृतीयस्या इदो दिवः औलभ वित्तमुपाह्वयधार्जिञ्च्याम शबलख अधो अधोराम उलुम् बलसारमे समुद्रमव चाकषद बिभ्रन्निष्कञ्च रुक्मं च शुनामग्रगुं सुबीरिणः सुबीरिण सृज सृज शुनक सृजै गव्रात्य सृजच्छद तत्सत्यं यत्त्वेन्द्रो ब्रवीद्गास्पाशयस्वेदि तास्त्वग् स्पाशयित्वा गच्छस्त्वं त्वा ब्रवीदविदः इत्यविदघुं चिदि वरं वृणीष्वेदि कुमारमेवासं वरं वृण बिभ्रन्निष्कं च रुक्मं च शुनामग्रगुं सुबीरिणः सुबीरिण सृज सृज शुनग सृजैकव्रात्य सृजच्छद तत्सत्यं यत्ते शरमादा लोकेता पिता अमीये के शरस्य का अवधावद तृतीयस्या इदो दिवः टेकश्च ससरमतन्तश्च तूलश्च वितूलश्चार्जुनश्च लोकितश्च दुलाफनामवो मादा मन्धाकको हवः पिदा सन्दक्षा कन्दिचक्रीवो शीर्षी ददा चदपेहि शीसरमसार मेय नमस्ते अस्तु सीसरा समश्वा वृषणपदो न नमस्ते अस्तु शीसर श्वानमिच्छ्वादन्न पुरुषं चद ये ते ते प्रदि समान वसने उभे ते अकगुंसारयेण मुसलेनावहन् म्यूलुकले हदशङ्गो हदर्शङ्कपिता हदस्यंग हदशङ्कुतर्वकः अपेक्ष्याग्स्तपदिर्हदः ऋषिर्बोधप्रबोधस्वप्नो माधरिष्वा ते ते प्राणान् स्परिष्यन्ति मा भैषीर्न मरिष्यसि जग्धो मस्को जग्दा विदृष्टिर्जग्धो व्यध्वरस्वाहा जग्दो व्यध्वरो जग्धो मशको जग्दा वितृष्टिस्वाहा जगदा वितृष्टिर्जग्दो व्यध्वरो जग्धो मशकस्वाभा्रजहिदन्तशोकं पक्षिण् यः सरीसृतः दंक्ष्यन्तं च दशन्तं च सर्वागस्तानिन्द्र जम्भय स्वाहा अप्सुजादसरे वृद्धदेवानामपि हस्तृ त्वमग्न इन्द्रप्रेषिदस नो मा हिगृंसी स्वाहा प्राणमसि परित्राणमसि परिधिरसि अन्येन मनुष्या तृणैः पश्योन् गरुदेन सर्पान् यज्ञेन देवान् स्वधया ते धृन् स्वाहा तत्सत्यं यत्ते मावास्यायाञ्च पौर्णमास्यां च विषबलिगुंहरन्दि सर्व उदरसर्पिणः तत्ते प्रेरदे संविशन्धित्वयि नः सतस्त्वयि सद्भ्यो वर्षाभ्यो नः परिदेहि नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ये अन्तरिक्षे ये दिवितेभ्य सर्पेभ्यो नमः ये रोचने दिवो ये वा सूर्यस्य रश्मिषु येषामप्सु सदकृतं तेभ्यः सर्पेभ्यो नमः यायिशवो या दुधाना ये वा वनस्पदी गुं रनु ये वावडेषु शेरदे तेभ्यः सर्पेभ्यो नमः नमो अस्तु सर्पेभ्यो ये पार्थिव य आन्तरिक्ष्या ये दिव्या ये दिश्याः तेभ्य इमं बलिगुंहरिष्यामि तेभ्य इमं बलिमहारिषं तक्षकवैशालेयधृतराष्ट्रैरावतस्ते जीवास्त्वयि न सतस्त्वयि सद्भ्यो वर्षाभ्यो नः परिदेहि कृतराष्ट्रैरावदतक्षकस्ते वैशालेयो जीवास्त्वयि नः सतस्त्वयि वर्षाभ्यो नः परिदेहि अखिगुंसादिबलस्ते जीवास्त्वयि नः सदस्त्वयि सद्भ्यो वर्षाभ्यो नः परिदेहि अधिबलाहिगुंसस्ते जीवास्त्वयि नः सदस्त्वयि सद्भ्यो वरुषाभ्यो नः परिदेहि ये दन्तशोका पार्थिवास् तागुस्त्व मितः परो गव्योदिं निवेशय सन्धि वै नः शफिनः सन्धि दण्डिनस्तेवो नेद्धिनः सा न्येद्यूयमस्मान् हि समीचीनामासिपाजी दिक्तस्यास्तेऽग्निरधिपतिरसिदो रक्षिता यश्चाधिपतिर्यश्च भोक्ता ताभ्यां नमस्तौ नो मृडयतां तेयं द्विष्मो यश्च नो द्वेष्टि तं वाजम्भे दधामि ओजस्विनी नामासि दक्षिणा दिस्यास्त इन्द्रोऽधिपदिप्रदापू रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयदां त्ययं यश्च नोद्वेष्टि तं वाजम्भे दधामि प्राची नामासि प्रतीची दिप्तस्यास्ते सोमोधिपदि स्वजो रक्षिता यश्चाधिपदिर्यश्च गोप्ता ताभ्यां नमस्तौ नो तेयं तेऽयं द्विष्मो यश्च द्वेष्टि तं वाजम्भे दधामि अवस्थावनामास्युदीचि दिक्तस्यास्ते वरुणोऽधिपदि स्थिरश्च राजिरक्षिदा यश्चाधिपदिर्यश्च गोप्ता ताभ्याम् न मस्तौ नो मृडयताम् तेऽयं द्विष्मो यश्च नो द्वेष्टितं वा जम्भे दधामि अधिपत्नीनामासि बृहदि दिक्तस्यास्ते बृहस्पतिरधिपतिष्वित्रो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां तेऽयं द्विष्मो यश्च नो द्वेष्टितं वा जम्भे ददामि वशिनी नामासियं दिक्तस्यास्ते यमोधि पधि कल्मा शग्रीवो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो देयं द्विष्मो यश्च नो द्वेष्टि तं वाजम्भे दधामि यो नामस्ततेषां वः पुरो गृह अग्नेर्वयिषवसलिलो वादनामम् तेभ्यो वो नमस्ते नो मृडयततेऽयं द्विष्मो यश्च नो द्वेष्टि तम्बो जम्भे दधामि निलिम्बानामस्ततेषां वो दक्षिणा गृहापि दरो वयशवसगरो वा वाद नामं तेभ्यो वो नमस्ते नो मृडयदतेऽयं द्विष्मो यश्च नो द्वेष्टितं भोजम्भे ददामि वज्रेणो नामस्ततेषां वःपश्चा व इषवो वरो वादनामम् तेभ्यो वो नमस्ते नो मृडय दधेयम् द्विष्मो यश्च नो द्वेष्टितम् वो जम्भे ददामि अवस्ता व उत्तरागृह आपो व इषवसमुद्रो तेभ्यो नमस्तेनो मृडयदतेऽयं द्विष्मो यश्च नोद्वेष्टितं वो जम्भे दधामि अधिपदयो नामस्तदेषां व उपरि गृहवरिषं वषवो वस्वान्वादनामं तेभ्यो वो नमस्तेनो मृडयदतेऽयं द्विष्मो यश्च नोद्वेष्टितं वो जम्भे दधामि क्रव्या नामस्तपार्थि वा स्तेषा वा इहगृहा अन्नं वा इषवो निमिषो वदनामं तेभ्यो वो नमस्ते नो मृगयततेऽयं द्विष्मो यश्च द्वेष्टि तं वो जम्भे दधामि अपश्वेदपदा जहि पूर्वेण चापरेण च सप्त च मानुषीरिमास्तिस्रश्च राजबन्धवीः नमो नमः वै एकाग्निकाण्डं टु 2.18 एय्टीन् परमेष्ट्यसि परमां माघं श्रियं गमय प्रत्यवरूढो नो हे मन्दः प्रदिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु प्रतिप्रजायां प्रति तिष्ठामि भवे इह धृदिरिह विधृदिह रन्दिरिह रमदिः स्योना पृथिवी भवान् निवेशनि यच्च नः शर्म सप्रदाः पर्वतानां खिद्रं बिभर्षि पृथिवी प्रया भूमि प्रपत्वदिमह्ना जिनोषि महिनी आत्वा वसन्धुहरयः सचेतः सश्वेतैरश्वैः सह केदुमद्भिः वादा जिरैर्मम कव्याय शर्वो पस्पृशतु मेढ्वान् पस्पृशदो मेढुषी मेढुष्यै स्वाहा जयन्तो पस्पृश जयन्ताय स्वाहा भवाय देवाय स्वाहा शर्वाय देवाय स्वाहे शानाय देवाय स्वाहा पशुपदये देवाय स्वाहा रुद्राय देवाय स्वाहोग्राय देवाय स्वाहा भीमाय देवाय स्वाहा महदे देवाय स्वाहा भवस्य देवस्य पत्न्यै स्वाहा सर्वस्य देवस्य पत्न्यै स्वाहे शानस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहोग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा महदो देवस्य पत्न्यै स्वाहा जयन्ताय स्वाहाग्नये शिष्टकृते सुहृदाहृद आहुतीनां पमानागं समर्धयित्रे स्वाहा स्वस्ति न पूर्णमुपत्परिक्रामदो गृहपोपस्पृश गृहपाय स्वाहा गृहप्युपस्पृश गृहप्यै स्वाहा कोषिण उपस्पृशदघोषिभ्य स्वाहा श्वासिन उपस्पृशद श्वासिभ्य स्वाहा विचिन्वन्त उपस्पृशद विचिन्वद्भ्य स्वाहा प्रपुन्वन्त उपस्पृशद प्रपुन्वद्भ्यः स्वाहा समश्नन्त उपस्पृशद समश्नाद्भ्यः स्वाहा देवसेना उपस्पृशदेवसेनाभ्य स्वाहा या आख्यादा याश्चानाख्यादा देवसेना उपस्पृश्यदेवसेनाभ्य स्वाहा द्वारापोपस्पृश्य द्वारपयस्वाहा द्वाराप्युपस्पृश्य द्वाराप्य स्वाहा वा सारिण उपस्पृशतान्वा सारिभ्य स्वाहा निशङ्गिन्नुपस्पृश निषङ्गिणे स्वाहा नमो निशङ्गिण यिशुद्धि मदे क्षेत्रस्य पदिना वयगुं हि देनेव जयामसि वामश्वं पोषयित्त्वा सनो नो मृडादीदृशे क्षेत्रस्य पदे मधु मन्दमूर्मिं धेनुरिवपयो अस्मासु धुक्ष्व मधुश्चुदं कृदमिव सुपूदमृतस्य नः पदयो मृडयन्तु एकाग्निकाण्डं टु पायिण्ट् नैन्टीन् यन्मेमादा प्रलुलोभचरत्यनुव्रता तन्मेरदत्पिता वृङ्कुतां मा धुरन्यो वद्यताममुष्मै स्वाहा या तिष्ठन्ति या धावन्ति या आर्द्रोऽग्ने परितस्तुषीः अन्र्विश्वस्य भर्तृभिरन्तरण्यं पिदु दधेमुष्मै स्वाहा यन्मे पितामही प्रलुलोभचरत्यनुव्रता तन्मे रदपितामहो वृङ्तां मा भुरन्योव पद्यदाममुष्मै स्वाहा अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या आभिर् दिग्भिरनन्दाभिरन्दरन्यं पितामह दधेमुष्मयि स्वाहा यन्मे प्रपितामही प्रलुलोभचरत्यनुव्रदा तन्मेरेदप्रपितामहो वृङ्गां मा भुरन्यो वपद्यदाममुष्मै स्वाहा अन्धर्दधऋतुभिरहो रात्रै सश्च सन्धिभिः अर्धमासैश्च मासैश्चान्दरन्यं प्रपीता महा दधे मुष्मै स्वाहा ये चेह पितरो ये च नेह उच्च नप्र विद्म आग्ने तान् वेद्ध यदि ते जादवेदस्तया प्रत्यग् स्वधया स्वाहा पित्रे पित्रे स्वाहा स्वाहा पित्रे पित्रे स्वाहा स्वधा स्वाहा अग्नेकव्यवाहनाय स्वधा स्वाहा येषते तद मधुमागुम् ऊर्मिसरस्वान् यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावतीन्द मात्रां ददामि यथाग्निरक्षितोनुपदस्त एवं मक्ष्यं पित्रेक्षितोनुपदस्तस्वधा भवता त्वग्विस्वधां तैस् सखोपजीवर्चस्ते महि मैष्यदे पिदामः मधुमागुम् ऊर्मि सरस्वान् यावान् तावत्यस्य मात्रा तावतीन्त मात्रां ददामि यथा वायुरक्षितोनुपतस्त एवं मह्यम् पिता महायाखितोनुपतस्तस्वधा भवतां त्वग्विस्वधां तै सहोपजीवसामानि ते महीमयि मही शते ए प्रपिता मह मधुमागुम् ऊर्मिसरस्वान् यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा दावधि तयेदाम् ता मात्राम् ददामि यथा दित्योक्षितोनुपतस्त एवम् मह्यं प्रपिदामः या क्षितोनुपतस्तस्वथा भवतां त्वग्स्वधाम् तैः सहोपजीवयजुगृंषि ते महिमा एकाग्निकाण्डं टु पाय्ण्ट् ट्वेण्टि पृथिवीदे पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानय जुहोम्यक्षिदमसि मैषां श्रेष्ठा अमुत्रामुस्मिन् लोके मार्जयन्दां मम पितरो मार्जयन्दां मम पिता मम प्रपिदा महामार्जयन्तां मम मातरो मार्जयन्दां मम पिता मह्यो मार्जयन्तां मम प्रपिदा मह्यः यदत्ते तदा सौ मन्वे तत्ते महासौ ये मन्वे तत्ते ए प्रपिता महास्सौ यज तत्ते मातरसौ यश्चत्वा तत्ते पितामह्यस्य याश्चत्वा मन्वे तत्ते प्रपिता मह्यसौ यश्चत्वा मार्जयन्दां मम पितर इत्येते ये जगोत्र ये चास्मा स्वाशगुं सन्धे याश्च वोत्र याश्चास्माश्वाशुं सन्धे ते च वसन्तां ताश्च वसन्तां तृप्यन्तु भवन्तस्तृप्यन्तु भवत्यस्तृप्यद तृप्यद तृप्यद पुत्रान् पौत्रान् अभितर्पयन्ति रावो मधुमधीरिमाः स्वर्गां पितृभ्यो अमृतं दुहाना आवो देवी रुभयागस्तर्पयन्तु तृप्यद तृप्यद तृप्यद प्राणेनिविष्टो मृदं जुहोमि ब्रह्मणि आत्मा मृदत्वाय यां जना प्रदिनन्दन्दिरात्रिं धेनु मि वायदे संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा बहव पां जादवेदपि दुर्भ्यो यत्रैनान् वेद्धनिहितान् परागे मे दसकुल्या उपतान् क्षरन्तु सत्यायेदा आस्ये श्रसन्तु कामयि स्वाहा यां इयमे वसाया प्रथमा वीक्षदरदी प्रविष्ठा वधोर्जान नव गजनित्रेना महिम सतंद चंदस्व दी उष सा दिशा सन योनी मनु सजरती सूर्यपत्नी विचरद प्रजानदी केदुं कृण्वाने अजरे भूरिरेतसा ऋदस्य पन्धामनुतिस्र आगुस्त्रयो कर्मासो अनुज्योतिशागुः प्रजामेका रक्षत्यूर्जमेका व्रदमेका, रक्षदि देवयोनां ये काष्टकां पश्यदोहमानामन्नं मागुं सवत् कृधवत्स्वभावद तद्ब्राह्मणैरधिभूतमनन्दमक्षय्य ममुष्मिन्लोगे वीदिं गच्छतु मे पितृभ्य स्वाहा अौलुकलाग्रावाणो कोश्रमक्रद हविकृण्वन्तः परिवत्सरीर्णम् ये काष्टका सुप्रजावीरवन्दो वयगृश्यामपतयो रयीणां य तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना तं दोहमुपजीवाध पितरसहस्रधरममुष्मिन् लोके स्वाहा एकाग्निकाण्डं टु पायिण्ट् ट्वेण्टि साध्यस्खीश्चन्दसा सह अपूपकृतापुदे नमस्ते अस्तु मागुं सपिपले स्वाहा भो पृथिव्याग्नि नर्चामयिकामं नियु नच्मि स्वाहा भुवो वायुनान्तरिक्षेण साम्नामुं मयि कामं नियूनक्स्मि स्वाहा स्वर्दिवादित्येन यजुषामु मयि कामं नियुनक्स्मि स्वाहा जनदद्भिरधर्वाङ्गिरोभिरमं मयि कामं नियुनक्ष्मि स्वाहा रोचनाया गिरायाग्नये देव जादवे स्वाहा केदवे मन ब्रह्मणे देव जादवे स्वधा स्वाहा स्वधा स्वाहाग्नये कव्यवासनायस्वधा स्वाहा अन्न मिवदे दृश्ये भूयासम् वस्त्रमिवदे दृशे भूयासं वित्तमिवदे दृशे भूयास माशेवदे दृश्ये भूयास श्रद्धे वदे दृशे भूयासगं सग् स्रवन्धु दिशो मही समा धावन्तु सर्वेकामा कामा अभियन्तु मा प्रिया अभिरक्षन्तु मा प्रियाः यस्योऽसि यशोऽ त्वयि भूयासमसौ अङ्गौ ण्यङ्गावभिदोरधैयौ द्वन्द्वं वादा ग्रमनुसञ्चरन्तौ देखे दूरेखे दीरिन्द्रियवान् पदक्रीतेनोऽग्नय पप्रयः पारयन्तु अध्वनामध्वपदे स्वस्ति मा सम्पारय अयं वामश्विनौ मादुके मा दुःखे मा सुखेरिषद अरिष्टस्वस्ति गच्छतु विविघ्नन् पृतनायतः अश्वसि अयोस्य त्योऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययोर्नामास्यादित्यानां पत्वान्वीः हस्ति यस्य हस्ति अस्ति यशसि वः कालवः श्रियं माभि वः इन्द्रस्य त्वा वज्रणाभिनिदधाम्यसौ अव जिह्वाक निजह्वाकावत्वा हविष यजे तत्सत्यं यदहं ब्रवीम्यधरो मदसौ वदात् स्वाहा आदे वाच मास्यां दद आमनस्यागं हृदयादधि यत्र यत्र देवाङ्निहितां द आददे तत्सत्यं यदसं ब्रवीम्यधरो मत्पद्य स्वासौ 2.22 पाय्ण्ट् ट्वेण्टि टु या दशाराट्या तनूर्मोर्मृध्रस्य नाशिनी तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः यत्तयेदन् मुखे मदगुं रराडमुदिव विद्यदि विदे क्रोधन् नयामसि गर्भमश्वतर्या इव अवज्यामिव धन्वनो हृदो मन्युं तनोमि ते इन्द्रापास्य पलिगमन्येभ्य पुरुषेभ्योऽन्यत्र मद यदकं धनेन प्रपन्नघुश्चरामि धनेन देवा धनमिच्छमानः तस्मिन् सोम रुचमा दधात्वग्निरिन्द्रो बृहस्पतिश्च स्वाहा परि त्वा गिरेरमिहं परिभ्रातु परिष्वसुः परि सर्वेभ्यो ज्ञादिभ्यः सङ्ग्रामेणाविच्छिदालेन परीक्षितोऽसि परीक्षीतोऽस्युलेन आवरुदन वरुदय निवरुदन वर्दयेन्द्र नर्दबुद भूम्याश्च दस्र प्रदिश्यस्ताभिरावर्तय पुनः आवर्दने निवर्दन आवर्दन निवर्धनाय स्वाहा अनुपोह्वदनुह्वयो निवर्दो वो न्यवीवृद ऐन्द्रपरिक्रोशो वः सर्वतः यदि मामदि मन्याध्वा अदेवा देववत्तरम् इन्द्रपार्श्वेण मह्य मेद्वशमानयात् स्वाहा यदि या वृक्षाद् यद्यन्तरिक्षात् फलमभ्यपदत्तदु वायुरेव यत्रास्पृक्षत्तनु वै यतवास आपो बाधन्दान् निरृतिं पराचैः ये पक्षिणपदयन्ति बिभ्यदो निर्वृत्यै सह ते मा शिवेन शक्मेन तेजसो दन्दुवर्चस दिवो अन्तरिक्षा तपाग्स्तो गो स महमिन्द्रियेण मनसा समागाम ब्रह्मणा सं पृञ्चानः सुकृता कृतेन इमं मे वरुणश्रुधिवमद्या च मृडय त्वामवस्युराचके तत्त्वा यजमानो हविर्भिः अघेडमानो वरुणेह बोध्युरुषगुंस मान आयुप्रमोषीः त्वन्नो अग्ने वरुणस्य देवस्य एडोव यासि सिष्ठाः यजिष्ठो या वह्नि तमशोशुचानो विश्वाद्वेषगुंसि प्रमो मोग्ध्यस्मद सत्वन्नो अग्नेवमो वमो भवो अस्या उशसो व्युष्टौ अवयक्ष्वनो वरुणगुम्रराणो वीहि मृडीकगुं सुहवो न एद्धि प्रजापदेन देताश्वाजा बूव ये जुहुमस्तनो अस्त वय सैम पदीण साम्राज्य विराज चाभिश्री चनो गृहे लक्ष्मी राष्ट्र या मुखे तया सगुं सृजामसि शुभिकेशिर आरोह शोभयन्ती मुखं मम मुखगुं हि मम शोभयभूया गुंसं च भगं कुरु यमाहरजमदग्निश्रद्धायै कामायान्यै यमां तामभि न भगेन सह सा। यामा हरजमदग्निश्रद्धायै कामायान्यै यमां तामपि न ह्येऽहं भगेन सह वर्चसा इमं जीवेभ्य परिधिं दधामि मैषाम् अनुगाधपरो अर्धमेदम् चदम् जीवन्तु शरद पुरुचिस्थिरो मृत्युं दददाम् पर्वतेन एकाग्निकाण्डे द्वितीयप्रपाटकः समाप्तः एकाग्नि समाप्तः